श्रीहरये नमः अथ पञ्चसप्तदिमोऽध्यायः राजोवाच अजातसत्रोस्तं दृष्ट्वा राजसूयमहोदयं सर्वे मुमुतिरे ब्रह्मन् प्रदेवाये समागताः दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ऋषिरुवाच पितामहस्यते यज्ञे राजसूये महात्मनः बान्धवापरिचर्यायां तस्यासन् प्रेमबन्धनाः भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः सह देवस्तु पूजायां नकुलो द्रव्यसाधने गुरुशुश्रूषणे जिष्णु कृष्णः पादावने जने परिवेषणे द्रुपदज कर्णो दाने महामनाः युयुधानो विकर्णश्च हार्दिक्यो विधुरादयः हा। बाह्लीकपुत्रा भूर्यात्या ये च सन्दर्दनादयः निरूपितामहायज्ञे नानाकर्मसुते तधा प्रवर्तन्ते स्म राजेन्द्र प्रियचिकीर्षवः ऋत्विक्सधस्य बहुवित्सु सुकृत्तमेक्षु स्वेष्टेषु सूनृत समर्हण चैत्ये च शाश्वत पतेश्चरणं प्रविष्टे चक्रोस्ततस्त्ववभ्रुत स्नपनं मृदङ्कशङ्कपणवं धुन्दुर्यानकगोमुखा वादित्राणि विचित्राणि नेधो आवमृतोत्सवे नर्तक्यो नन्दृतोर्हृष्टा गायकायुदसो जगुः वीणा वेणुतलोन्नादस् तेषां स दिवमस्पृशत् चित्रध्वजपदाघ्रैर् इबेन्द्रस्यन्धनार्वभिः स्वलङ्कृतैर्भटैर्भूपा निर्ययो यदुशृञ्जय काम्भोजं कुरु केकय कोशलाः कम्पयन्तो भुवं सैन्यैर्यजमानः पुरासराः सधस्यर्द्विग्द्विजश्रेष्ठां ब्रह्मघोषेण भूयसा देवर्षि पितृगन्धर्वास्तुष्टो वः पुष्पवर्षिणः स्वलङ्कृता नरा नार्यो गन्धश्रग्भूषणाम्बरैः विलिम्पन्त्यो भिषिञ्चन्त्यो विजक्रोर्विविधैरसैः तैलघोरसगन्धोद हरिद्राशान्तकुङ्कुमैः पुंभिर्लिप्ता प्रलिम्बन्त्यो विजह्रुर्वारयोषितः गुप्ता नृपिर्निरकमन् उपलब्धुमेध देव्यो यथा सौव्रीडहास विह सद्वदनाभिरेजुः तादेवरानुतसखेन् शिशिशोर्तृदीभिः क्लिन्नाम्बराविवृतगात्र कुचोरोमद्याः औत्सुक्यमुक्तकभर शवमानमाल्याः शोभं तदुर्मलदियां रुचिरैर्विहारैः स सतस्वं सत स्वं रुक्ममालिनं व्यरोचत स्वपत्नीभिः क्रियाभिक्रतुराडिव पत्नी आचान्तं स्नापयाञ्चक्रोर्गङ्गायां सह कृष्णयां देवदुन्दुभयो नेतोर्नरदुन्दुबिभि समं मुमचुःपुष्पवर्षाणि ते वर्षे पितृमानवाः सशुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः महापातक्यपि यतः सद्योमुच्येत किल्बिषात् आनर्चाभरणाम्भरैः बन्धुज्ञाति नृपान्मित्र सुहृदोन्यांश्च सर्वसः अभीक्ष्णं पूजयामास नारायणपरो ना नृपः सर्वे जनासुररुचो मणिकुण्डलसृक् उष्णीषकञ्चुक दुकोलमहार्घ्यहाराः नार्यस्य कुण्डलं युगालकौ वृन्दजुष्ट वक्त्रश्रियः कनक मेखलया विरेजूः अर्द्विजो महाशीला सदस्या ब्रह्मवादिनः ब्रह्मक्षत्र्यविक्षूद्रा राजानो ये समागताः देवर्षि पितृभूतानि लोकपाला सखानुगाः पूजितास्तम् अनुज्ञाप्य स्वधामानि ययोर्नृप हरिदासस्य राजर्ष्ये राजसूयमहोदयं नैवातृप्त्यन् प्रशंसन्त बि पिबन्मर्त्योमृतं यथा तथो युतिष्ठो राजा सुहृत्सम्भन्ति भन्तवान् प्रेम्णा कृष्णं च त्यागकातरः भगवानपि तत्राङ्गयवात्सी तत्प्रियङ्करः प्रस्थाप्य यदुवीरांश्च सम्पादींश्च कुशस्थलीम् इत्थं राजा धर्मसुतो मनोरथमहार्णवं सुधुस्त्रं समुत्तीर्य कृष्णेनासीद्गदज्वरः एकदान्तःपुरे तस्य वीक्ष दुर्योधनश्रियम् अथ व्यत्राजसूयस्य महित्वं चाच्युतात्मनः यस्मिन्नरेन्द्रधितिजेन्द्र सुरेन्द्रलक्ष्मीर्नानाविभान्ति किल विश्वश्रुजो पक्लृताः ताभिः पतिं तृभद राजसुतोपतस्ते यस्यां विशक्तहृदय कुरुराटतप्ये यस्मिन् तथा मधुपतेर्मगिषी सहस्रं श्रोणीभरणे सनकै क्वणधङ्कृशोभं मध्ये सुचारुकुचकुङ्कुमशोणहारं श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यं सभायामय क्लृप्तायां क्वापि धर्मे सुतोदिराट् रथोनुजैर्बन्तुभिश्च कृष्णेनापि स्वचक्षुषा आसीनः काञ्चने साक्षादासने मघवानिव पारमेष्ट्य श्रियाजुष्ट स्तूयमानश्च वन्दिभिः तत्र दुर्योधनो मानि परितो भ्रातृभिर्नप विसत्, असि हस्तशिपन् रुषा स्थले व्यगृह्णा त्वस्त्रान्तं जलं मत्वा स्थले पतत् जले च स्थलवद्भ्रान्त्या मय माया दृष्ट्वा स्त्रियो नृपतयो परे निवार्यमाणा अभ्यङ्ग राज्ञा कृष्णानुमोदिताः सव्रीडितो वाग्वधनोरुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् हा हेति शब्दसुमहनाभूत्सताम् अजातशत्रुर्विमना इव भवत् बभूव तूष्णीं भगवान् भुवो बरं समुज्जिहीर्षोर्भ्रमति एतत्ते विहितं राजन्यत्पृष्ठोऽहमिह त्वया सुयोधनस्य धौरात्म्यं राजसूये महाक्रतौ इति श्रीमद्भगवते महापुराणे दशमस्कन्ते उत्तरार्धे दुर्योधनमानभङ्गो नाम पञ्चसप्ततितमोऽध्यायजीवनस्मरणम् गोविन्दा, गोविन्दा, गोविन्द सद्गुरुनाथमहाराज के जय